पौमां सूक्तम् पुण्याः वाचनम् श्रीगुरुभ्यो नमः हरिः ॐ हिरण्यवर्णाश्रुचया पावकायाशो जातकस्य पूयास्मिन्द्र अग्निं जागर्भं दधीरे विरूपास्तान् आपः सर्गस्यो ना या सा गं राजावर्णो याति मध्ये सत्यालते अवपश्यं जनानां मधुश्च्युतश्चो सूचयो या पावकास्ता न आपस्तर्गस्यो न भवन्तु या सा आं देवादिविकृन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ते। या पृथिविम्पयसोन्दन्ति शुक्रास्तान आपशर्गस्यो ना भवन्तु शिवेन मा चक्षुषा पश्यतापशिवयां तनुवोप त्रिसतत्वतं मे सर्वागमनिगं लप्सु सदो हु एवो मयि वरचो बलमोजो निधत्त भौमानस्वरजनः पवित्रेण वितर्षणिः य पोतास पुनः तु मां पुनन्तु मां देवजनाः पुनन्तु मनवोधियां पुनन्तु विश्व आयवः जातवेद पवित्रवता पवित्रेण पुनाहि मां शुक्रेण देवतीयद्यत अग्ने कृत्वा कृतगं क्रत रणुं यत्ते पवित्रमर्चिषी अग्ने वितमन्तारां ब्रह्म तेन पुनीमहे उभाभ्या देवसवितः पवित्रेण सवेन इदं ब्रह्म पुनीमहे वेसदेवी पुनतिदेव्यमाग आत यस्यैवन्भीस्तनुवो वितपृष्टाः तया मदन्तसदमाद्येषु वयज्ञश्यामापतयोरयीणां वैश्वानरो रश्निभिर्मापुनातु वातप्राणेन शिरो मयोभू द्यावापृथवी पयसा मयोभिः ऋतावरियज्ञे मा पुनीतां बृहद्भिः सवितस्त्रिभिः देवमन्मभिः अग्ने पुनाहि मा येन देवा अपुनत एनापो कषः तेन देव्येन ब्रह्मणा इदं ब्रह्म पुनीमहे य पावमाणिरध्येति ऋषिभिः सम्भृतगं रसम् सर्वगं सपुतमस्नाति श्वितं मातरिस्वनां पावमानिर्यो अध्येते ऋषिर्भिः सम्भृतगं रसं तस्मै सरस्वति दुहे चीरगं सर्पे मधुदकं पावमानी रसस्पेणी तुजुगाही पयस्वतिः विसिद्धिसम्भृतो रसः ब्राह्मणेश्वमृतगम्भितं पावमानिर्दिशन्तु नः इमं लोकमथो अमुं कामां समधं धर्यन्तु नः देवी देवैः समामृताः पावमानी स्वस्य सुदुगाही गीतश्च्युतः ऋषिवीसंभृतो रसः ब्राह्मणेष्वमृतगम्भितं येन देवा पवित्रेण आत्मानं पुनते सदा तेन सहस्रधारेण पवमान्यपुनन्तु मा प्राजापत्यं पवित्रम् ततो ज्यामगम्भिरण्यम् तेन ब्रह्ममिदो वयं पूतं ब्रह्म पुनीमहे इन्द्रस्वनीति सह मापुनातु सोमः स्वस्त्या वरुणः समित्या आ यमो राजा जातवेदा मूर्जयन्त्यापुनातु भर्भुवस्तु ॐ तच्छयो रावणीमहे गातुं यज्ञायां गातुं यज्ञपदये देवी ईश्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्य उर्धं जि गातु भीषणं सन्नो अस्त्युद्विपदे ऐं शं चतुष्पदे ॐ शान्ति शान्तिश्शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु अथर्वण वेदमन्त्राः रोगनिवारणसुप्तम् श्रीगुरुभ्यो नमः हरिः ओं जराजुजप्रथम उश्रियो वृषा वातभ्रजास्तनयन्नेतिभृष्ट्या स नो मृगाति तन्मरुजगोरुजन्य एकमोजः श्रेधा विचक्रमे अङ्गे अङ्गे शोचि सा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम अङ्का हविषा विधेमयो अग्रभीतपर्वास्याग्रभीताम् मञ्चशीर्षक्त्या उत काच एनं परुषः परुराविवेशा यो अस्य यो अभ्रजा वाचजायश्च शुभ्रो वनस्पति सञ्चतां पर्वतांश्च सम्ये परस्मै गात्राय समस्तवराय मे सम्य चतुर्भ्यो अङ्केभ्य समन्तु तन् यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते यस्मिन् तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः यं धात्पा मुनिः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं तं वन्दे पुरुषत्तमाख्यमलं नित्यं विभुं निश्चनम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु